मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायं ट्वेन्टिसिक्स् मौद्गलपुराणश्रवणमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच भीमो नामाभवद्वैष्यत्सर्वधर्मविवर्जितः अङ्गदेशे महापापि दर्शनात् पुण्यनाश कृत स कदाचिद्वने संस्थो बभूवे चौर्यकारणाद तत्रा जगामराजश्रि सैन्ययुक्तो विदर्भपः तं दृष्ट्वा त्यज्य शस्त्राणि भीमः पापपरायणः महावनान्तरं गत्वा तस्थौ प्राणपरीप्सया तत्र मेधातिथिर्माखशुक्लप्रतिपदि प्रारभ्य मुनिसंयुक्तो म उद्गलं कथितुं रथः तत्रा जगाम तान् दृष्ट्वा वैश्यः पापरतो मुनि भयात्समीपगस्तेर्ष संस्थितशस्त्रवर्जितः राजा समययौ तत्र ननाममुनिपुङ्गवम् मेधातिथिं तदः सर्वान् मुनीन् भावसमन्वितः पुनः प्रणम्य स्वस्थानं ययौ भानुर्विदर्भपः वैश्यो मुनि वने तत्र सुष्वापविनयान्वितः प्रातःकाले पुनः स्नात्वा कृत्वा नित्यक्रियां द्विजाः मौद्गलं श्रोतुपामास्ते आययोर्हर्ष संयुताः तैः साकं भीमवैश्योऽपि भी राजभीत्या समाययौ शुश्रावमौद्गलं तत्र पुराणं विस्मितोऽभवद मौद्गलस्य पुराणस्य श्रवणेन दुरात्मनः भेदो बभूवापि स तत्रैव स्थितोऽभवद विचारमकरो चित्ते भीमः पापपरायणः अहो वैश्योऽहमानन्दात् किं करोमि दुरात्मवान् पापिनो नरकं यान्ति नरा नास्त्यत्र संशयः नरदेहम् समासाद्य धर्मं कुर्यात् मानवः एवं विचाल्य तत्रैव मुद्गलश्रवणे रदः त्यक्त्वा स्त्री पुत्रपाद्यं गणेशे लालसो भवद फाल्गुन्यां पूर्णिमायां तत्पुराणं पूर्णमा भवद मेधास्तिधिप्रतिपदि द्विजान् संभोज्य हर्षितः सकृत्वा पारणं सर्वान् विसृज्य गणपे रतः नित्यं गणेश्वरं भक्त्या पूज्य भक्तिपरो भवत् भीमस्वगृहमागत्य त्यक्त्वा पापात्मकं परं कर्मस्वधर्मसंयुक्तो बभूव गणपे रतः मौद्गलश्रवणेनैव सर्वपापविवर्जितः बभूव धर्मशीलश्च गणपत्यो महायशाः शरीरान्ते गणेशानमगमद्वैश्यजः परं ब्रह्मभूतो बभूवापि दृष्ट्वा विघ्नेश्वरं मुने मौद्गलं सततं श्रुत्वा चैवं नाना जनादयः बभूवुः पुण्यशीलाश्च किल तन्मयाः तत्राकं कथिते ब्रूयां शक्तो वक्तुं नको भवत नानेन ना सदृशं किञ्चिज्जानीहि त्वम् अहामुने ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि श्रीमन्मौद्गले महापुराणे नवमे खण्डे योगचरिते योगामृद्धार्थशास्त्रे दक्षमुद्गलसंवादे माकादिसार्धमास्ये मौद्गलपुराणश्रवणमाहात्म्यवर्णनं मा नाम षड्विंशोऽध्यायः ओम्